नारदपुराणं पूर्वार्थम् अध्यायं 50. सूत उवाच श्रुत्वा सनन्दनस्येद्धं वचनं नारदो मुनिः असन्तुष्ट इव प्राकभ्रातरं तं सनन्दनं नारद उवाच भगवन् सर्वमाख्यादं यत्पृष्ठं भवदो मया तथापि नात्मा प्रियेदशृण्वन् हरिकथा मुहुः श्रूयदेव्याः स पुत्रस्तु सुकः परमधर्मविदसिद्धिं सुमहतीं प्राप्तो निर्विन्नो वान्तरं बहिः ब्रह्मन् सस्तु विज्ञानं महदां सेवनं विना न जायते कथं प्राप्तो ज्ञानं व्यासात्मजशिशुः तस्य जन्मरहस्यं मे कमचाप्यस्य शृण्वदे समाख्याहि महाभागमोक्षशास्त्रार्थविद्भवान् स सनन्दन उवाच शृणु विप्रवक्ष्यामि सुगोत्पत्तिं समासदः यां श्रुत्वा ब्रह्मतत्त्वज्ञो जायते मानवो मुने न हायनैर्नपलितैर्न वित्तेन न बन्धुभिः ऋषयच्चक्रिरेर्धर्मं धर्मं स नो महान नारद उवाच अनूचानः कथं ब्रह्मन् पुमान् भवति तन्मे कर्म कर्मसमाचक्ष्वश्रोतुं कौदूहलं मम सनन्दन उवाच शृणु नारदवक्ष्यामि च्यनुचानस्य लक्षणं यज्ञात्वा साङ्गवेदानामभिज्ञो जायते नरः कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा शन्तः शास्त्रं षडेदानि वेदाङ्गानि विदुर्बुधाः ऋग्वेदोऽ यजुर्वेद समवेदो ह्यधर्वणः वेदाश्चत्वार एव वैदे प्रोक्ता धर्मनिरूपणे साङ्गान्वेदान् गुरोर्यस्तु समधिदे द्विजोत्तमः सोनु चानप्रभवदि नान्यधा ग्रन्थकोडिभिः नारद उवाच अङ्गानां लक्षणं ब्रूहि वेदानां चापि विस्तराद त्वं मस्मासु विज्ञः साङ्गेष्वेदेषु मानद सनन्दन उवाच प्रश्नभारोऽयमधुलस्त्वया मम कृतो द्विजा संक्षेपात् कथयिष्यामि सारमेषां सुनिश्चितं स्वरप्रधानशिक्षायां कीर्तितो मुनिभिर्द्विजैः वेदानां वेदविद्भिस्तु तच्छृणुष्व वदामि ते आस्तिकं गाधिकं चैव सामिकं च स्वरान्तरम् कृतान्तेश्वरशास्त्राणां प्रयोक्तव्यविशेषतः एकान्तरस्वरो ह्यप्सु गाधासुध्व्यन्तरस्वरः सामसुत्यन्तरं विद्यादेदावत्स्वरदोऽन्तरं ऋसामयजुरङ्गानि ये यज्ञेषु प्रयुञ्जते अविज्ञानाधिशिक्षा या तेषां भवति विस्वरः मन्द्रो हीनस्वरदो वर्णदो वा मिथ्याप्रयुक्तो न तमर्थमाह स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुस्वरतोपरार्थाद् उरःकण्ठशिरश्चैव स्थानानि त्रीणि वाङ्मये सवनान्याहुरेदानि सामवाप्यर्थतोऽन्तरम् पुरःसप्तविवारं स्यात् तथा कण्ठस्तथा शिरः न च शक्रोऽसि प्रावचनाविधिः कठकालापवृत्तेषु तैत्तिराह्वरकेषु च ऋग्वेदे सामवेदे च वक्तव्यप्रथमस्वरः ऋग्वेदस्तु द्वितीयेन तृदीयेन च वर्तते उच्चमध्यमसङ्कादस्वरो भवति पार्थिवः तृतीय प्रथमकृष्टा कुर्वन्त्याह्वरकान् स्वरान् द्वितीयाध्यास्तु मन्त्रान्तास्तैतिरीयाश्चतुस्वरान् प्रथमश्च द्वितीयश्च तृतीयोधश्चतुर्थकः मन्द्रकृष्ठो मुनीश्वरवेदान् कुर्वन्ति सामगाः द्वितीय प्रथमवेदौ नाण्डिबाल्लविनौ स्वरौ तथा वेदौ स्वरौ वाज यदे विशेषदप्रोक्ताः स्वरा स्वरावै सार्ववैदिकाः इत्येतच्चरितं सर्वं स्वराणां सार्ववैदिकं सामवेदे दु वक्ष्यामि स्वराणां चरितं यद्धा अल्पग्रन्थं सामवेदाङ्गमुत्तमं तान रागस्वरग्राममूर्च्छनानां तु लक्षणं पवित्रं पावनं पुण्यं यथातुभ्यं प्रकीर्तितं शिक्षामाहुर्द्विजादीनां मृग्यजुस्सामलक्षणं सप्तस्वराश्रयो ग्रामा मर्चनास्त्वेकविंशतिः एकोन पञ्चाशदित्येतस्वरमण्डलं षड्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा पञ्चमोद्धैवतश्चैवं निषादसप्तमः स्वरः षड्जमध्यमगान्धारात्रयो ग्रामा प्रकीर्तिताः भूलो गजाय धेषजो भुवर्लोकान् च मध्यमः स्वर्गाभ्राचैव गान्धारो ग्रामस्थानानि त्रीणिः स्वराणां च विशेषेण ग्रामरागागिधिस्मृताः विंशतिर्मध्यमग्रामे षड्जग्रामे चतुर्दश स्थानान् पञ्चदशे चन्दिगान्धारे सामगाहिनां नदी विशाला सुमुखी चित्रा चित्रवदी मुखा बलाचाप्यथ विज्ञेया देवानां सप्तमोर्चनाः आप्यायिनी विश्वभृदा चन्द्रा हेमा कपर्धिनी मैत्री च पार्हती चैव षड्जे तुत्तरमन्त्रा स्यादृषभे चाभिरुहता अश्वक्रान्ता दुर्गान्धारे तृतीया मूर्चना स्मृता मध्यमे खलु सौवीरा हृषिका पञ्चमेश्वरे दैवते चापि विज्ञेयामूर्छना तुत्तरा मता निषादेरजनीं विद्यादृषीणां सप्त मूर्छनाः उपजीवन्दिगन्धर्वा देवानां सप्त मूर्छनाः पितॄणां मूर्छनाः सप्त तथा यक्षा न संशयः ऋषीणां मूर्छनः सप्त यास्त्विमालौकिका स्मृताः सङ्खप्रीणादि वै देवानऋषीन् प्रीणादिचर्षभः पितॄन् प्रीणादिगान्धारो गन्धर्वान् मध्यमस्वरः देवान् पितॄन् ऋषींश्चैव स्वरप्रीणादि पञ्चमः यक्षान्निषादप्रीणादि भूतग्रामं च धैवतः पानस्य स्तु तद्यथा रक्तं पूर्णमलङ्कृतं प्रसन्नं व्यक्तं विकृष्टं श्लश्नं समं सुकुमारं मधुरमिति गुणस्तत्र रक्तं नाम वेणुवीणास्वराणामेघीभावं रक्तमित्युच्यते पूर्णं नाम स्वरश्रुति पुराणाच्छन्तः पादाक्षरम् संयोगात् पूर्णमित्युच्यते अलङ्कृतं नामो रसि शिरसि कण्ठयुक्तमित्यलङ्कृतं प्रसन्नं नामापगता गद्गद निर्विशङ्कं प्रसन्नमित्युच्यते व्यक्तं नाम पदपदार्थप्रकृतिविकारागमनोपकृतद्धिध निपादोप, समासधादु निपादोपसर्गस्वरलिङ्गं वृत्तिवार्तिकविभक्रियर्थवचनानां सम्यगुपपादनं व्यक्तमित्युच्यते विकृष्टं नामोच्चैरुञ्चरिदं व्यक्त पदाक्षरं विकृष्टमित्युच्यते श्लेष्णं नाम द्रुतमवलिम्बितमुच्चनिजक्लुद समाहार हेलतालोपनयादिभिरुपपादनाभिः श्लक्ष्णमित्युच्यते समं नामावाप निर्वाप प्रदेशे प्रत्यन्तरस्थानानां समासः सममित्युच्यते सुकुमारं नाम मृदुपदवर्णस्वरकुहगरणयुक्तं सुकुमारमित्युच्यते मधुरं नाम स्वभावोपनीतललितपदाक्षरगुणसमृद्धं मधुरमित्युच्यदे येवमेधैर्दशभिर्गुणैर्युक्तं गानं भवति भवन्ति चात्रशोकाः शङ्कितम्भीषणं भेदमुद्दुष्टमनुनासिकं काकस्वरं मूर्धगतं तथास्थानविवर्जितं विस्तरं विरसं चैव विश्लिष्टं विषमाहदं व्याकुलं तालहीनं च दीधि दोषाश्च दुर्दश आचार्याः स्त्रियो पदचेद पंडिता मधुरिछंदी विकृष्टमे जान पद्रभसुखर कनकाभस्तु गो मध्य मकुंद पंचमस्तु भवशंधवद विदु निषादः सर्ववर्णस्यादित्येता स्वरवर्णदा पञ्चमो मध्यमषड्ज इत्येते ब्राह्मणा स्मृताः वृषभो दैवताश्च पीत्येतौ वै क्षत्रिया उभौ गान्धारश्च निषादश्च वैश्यावर्धेन वैस्मृतौ शूद्रत्वं विधिनार्धेन पदितत्त्वान्न संशयः ऋषभो मूर्च्छिदवर्जितो दैवदसहितश्च पञ्चमो यत्र निपतति मध्यमरागे स निषादं षाञ्जवं विद्याद यदि पञ्चमो विरमदे गान्धारश्चान्तरस्वरो भवति वृषभो निषाद सहितस्तं पञ्चममीदृशं विद्याद गान्धारस्याधिपत्येन निषादस्य गदागधैः दैवतस्य जर्बल्यन्मध्यमग्राम उच्यते ईषत्पृष्ठो निषादस्तु गान्धारश्चातिको भवेद् दैवतकम्बितो यत्र याम ईरिदः अन्तरस्वरसंयुक्तकाकल्युर्यत्र दृश्यते तं तु साधाजितं विद्यात् पञ्चमस्तं तु कैशिकं कैशिकं भावयित्वा मध्यमे न्यासस्तस्मात् कैशिकमध्यमः काकल्यदृश्यते यत्र प्राधान्यं पञ्चमस्य तु कस्य हकैशिकं प्राक् मध्यमग्रामसम्भवं गेदि गेयं विदुप्राज्ञा कार्यु वेदि कार्युप्रवादनं वेदि वाद्यस्य संज्ञेयं गन्धर्वस्य प्ररोचनम् यस्सामगानां प्रथमः स वेणोर्मध्यमस्वरः योऽ द्वितीयस्य गान्धारस्तृदीयस्त्वार्षभस्मृतः चतुर्धषड्ज इत्याहुपञ्चमो धैवतो भवेत् षष्ठो निषादो विज्ञय सप्तमः पञ्चमः स्मृतः वददि कावो मयूरो वदति गावो रम्भन्धिचर्षभम् अजाविकेदुगान्धारं क्रौञ्चो वदति मध्यमं पुष्पसाधारणे काले कोकिला कोकिलावक्रिपञ्चमम् अश्वस्तु वक्ति वक्तिनिषादं वक्तिकुञ्जरः कण्ठादुत्तिष्ठदे षड्जशिरस्त्वर्षभस्मृतः गान्धारस्त्वनु नासिक्य उरसो मध्यमस्वरः उरस्सशिरसखण्डादुद्धितः पञ्चमस्वरः ललाडाद्दैवतं विद्यानिषाद सर्वसन्धिजं न साकण्डमुरस्तालुजिह्वादन्तांश्च संश्रदः षड्भिः सञ्जायते यस्मा तस्मात् षड्झ इति स्मृतः वायुस्समुद्भिदो नाभे कण्डशीर्षसमाखदः नर्दत्यर्षभवद्यस्मादस्मादृषभ उच्यते वायुस्समुद्भितो नाभे खण्डशीर्षसमाहधः वाधि गन्धवः पुण्यो गान्धारस्तेन हेधुना वायुस्समुद्धिदो नाभेरुरौ हृदि समाहतः नाभिप्राप्तो मध्यवर्ती मध्यमत्वं समश्नुदे वायुस्समुद्धिदो नाभेरुरो हृत् कण्ठकाहृतः कण्ठकाहतः पञ्चस्थानोद्धितस्यास्य पञ्चमत्वं विधीयते धैवतं च निषादं च वर्जयित्वा दुतावुभौ शेषान् पञ्चस्वरांस्त्वन्ये पञ्चस्थानोद्धितान् विदुः पञ्चस्थानस्थितत्वेन सर्वस्थानानि धाज्यते अग्निगीतस्वरषड्जऋषभो ब्राह्मणोच्यते सोमेन गीतो गान्धारो पंचमस्तुस्वरो पञ्चमस्तुस्वरो गीतस्त्वयैवेदिनिधारय दैवतश्च निषादश्च गीतौ तुम्बुरुणौ स्वरौ आद्यंस्य दैवतं ब्रह्म षड्जस्याप्युच्यदे बुधैः तीक्ष्णदीप्तप्रकाशत्वादृषभस्य हुताशनः गावः प्रणीरेतुष्यन्ति गान्धारस्तेन हेतुना श्रुत्वा चैवोपतिष्ठन्ति सौलभ्येयानसंशयः सोमस्तु पञ्चमस्यापि दैवतं ब्रह्मराड्स्मृतं निह्रासो यस्य वृद्धिश्चग्राममः सद्य सोमवद आदिसन्धीयते यस्मादेदान् पूर्वोद्धिदान् स्वरान् तस्मादस्य स्वरस्याभिधैवतत्त्वं विधीयते निषीदन्धिस्वरा यस्मान् निषादस्तेन हेतुना सर्वांश्चाभिभवत्येष यदा द्वितीयोस्य दैवतं तारवि गात्रवीणा च द्वे वीणे गानजादिषु सा मनी गात्रवीणात् तस्यास्त्वं शृणुलक्षणं गात्रवीणा तु सा प्रोक्ता यस्यां गायन्ति सामगाः स्वरव्यञ्चनसंयुक्ता अङ्गुल्यङ्गुष्ठरं जिता हस्तौ दुःसंयतौ धार्यौ जानुभ्यामुपरिस्थितौ गुरोरनुकृतिं कुर्याद्यधान्यानमधिर्भवेद् प्रणवं प्राक् प्रयुञ्जीदव्याहृदिस्तदनन्तरं सावित्रीं चानुवचनम् तदो वै गानमारभेद प्रसार्य चाङ्गुलीस्सर्वा रोपयेत्स्वरमण्डलम् न चाङ्गुलीभिरङ्गुष्ठमङ्गुष्ठेणाङ्गुलिः स्पृशेद विरलानाङ्गुलीकुर्यान्मूले चैतां न संस्पृशेद अङ्गुष्ठाग्रेणता नित्यं मध्य मे पर्वणि स्पृश्येद मात्राद्विमात्रवृद्धानां विभागार्थे विभागविद अङ्गुलीभिर्द्विमात्रं तु पाण्डे सव्यस्य दर्शयेद् त्रिरेखा यस्य दृश्यते सिद्धिं तत्र विनिर्दिशेद सपर्व इति विज्ञेयशेषमन्तरमन्तरम् पर्वान्तरं सामसु च ऋक्षु कुर्याक्तिलान्तरम् स्वरान्मध्यमपर्वसु सुनिविष्टं निवेशयेद् न चात्र कम्पयेत्किञ्चिदङ्गस्यावयवं बुधः अधस्तनमृदन्यस्य हस्तमात्रे यथा प्रमम् अभ्रमध्ये यथा विद्युद्दृश्यते मणिसूत्रवद पृषच्छेदविवृत्तीनां यथा बालेषु कर्तरी कूर्मोऽङ्गानि च संहृत्य चेदोदृष्टिम् दिशन्मनः स्वस्थप्रशान्तो निर्भीगो वर्णानुच्चारयेद्बुधः नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेद् निवेश्य हस्ताग्रे शास्त्रार्थमनुचिन्तयेद् सम्यक् हस्तेन च मुखेन च यथैवोच्चारयेद्वर्णांस्तथैवैनां समापयेत् नात्याहन्यान्न निर्हन्यान्न प्रगायेन् कम्पयेत् समं सामानि गायेदव्यो निःस्वेन र्यथा यथा सुचरता मार्गो मीनानां नोपलभ्यते आकाशे वा विखङ्गानां तद्वत्स्वर्गदाश्रुतिः यथा दधिनि सर्पि काष्ठस्थो वा यथा प्रयत्नेनोपलभ्येद तद्वत् स्वरगदाश्रुतिः स्वरास्वरस्य सङ्क्रामं स्वरसन्धिमनुल्बणम् अविच्छिन्नं समं कुर्यात्सूक्ष्मच्छायात्तपोपमम् अनागतमधिक्रान्तं विच्छिन्नं विषमाहतम् तन्वं तमस्ति तां तं च वर्जयेत्कर्षणं बुधः स्वरस्थानाच्युतो यस्तु स्वं स्थानमधिवर्तते विस्तरं सामगाभ्रूयुर्विरक्रमिदि वीणिनः अभ्यासार्धे द्रुतां वृत्तिम् दुमध्यमाम् शिष्यनामुपदेशार्थं प्रयोगार्थेदुमध्यमाम् शिष्याणामुपदेशार्थं कुर्याद्वृत्तिं विलम्बितां गृहीतग्रन्थयेवन्दुग्रन्थोच्चारणशैक्षकान् हस्तेनाध्यापयेच्छिष्यान् शैक्षेण विधिना द्विजः कृष्टस्य मूर्ध्निस्थानं ललाडे प्रथमस्य तु भुवोर्मध्यद्वितीयस्य तृतीयस्य तु कर्णयोः कण्ठस्थानं चतुर्धस्य मन्त्रस्य रशनोच्यते अधिश्वरस्य नीचस्य हृदिस्थानं विधीयते अङ्गुष्ठ अङ्गुष्ठस्योत्तमे कृष्टो ह्यङ्गुष्ठं प्रथमः स्वरः प्रदेशिन्यां तु गान्धारवृषभस्तदनन्तरम् अनामिकायां षड्जस्तु कनिष्ठायां तु धैवतः तस्याद्धत्ताञ्च योन्यास्तु निषादं तत्र निर्दिशेद अपर्वत्वादमध्यत्वा दव्ययत्वाञ्च नित्यशः मन्द्रोहि भूदस्तु परिस्वार इति स्मृतः देवा जीवन्ति प्रथमे न तु मानुषाः पशवस्तुद्वितीयेन गन्धर्वाक्सरसस्त्वनु अन्धजाः पितरश्चैव मन्द्रत्वेनोपजीवन्ति पिशाचासुरराक्षसाः अधिस्वरेण नीचेन जगस्तावरजङ्गमाः सर्वा खल भूदानि धार्दे समक दीप्ता यता करुण मृदुमध्यमस्तुती यो विशेषज्ञोंो न स आचार्य उच्य से दीता मंत्रे द्विधयचतुर्थ तथैव च अधिस्वरे तृतीये चकृष्टे दुः करुणाश्रुतिः श्रुतयो याद्वितीयस्य मृदुमध्या यदा स्मृताः तासामपि दुवक्ष्यामि लक्षणानि पृथक् पृथक् आयतात्वं भवेन्नीचे मृदुतादु विपर्यये स्वेस् स्वरे मध्यमात्वं तु तत्समीक्ष्य प्रयोजयेद् द्वितीये वीरतायादु कृष्टश्च परदो भवेद् दीप्तां तां तु विजानीयात् प्राथम्येन मृदु अत्रैव विरदा यादु प्रवर्तते तद्धा मन्द्रे भवेद्दीप्ता साम्नश्चैव समापने नादितारश्रुतिं कुर्यास्वरयोर्नापि चान्तरे तं चक्रस्वे च नचापि च न चापि कुडिसंज्ञके स्थानेषु पञ्चस्वेदेषु विज्ञेयकुडिसंज्ञकं स्वरान्तराविरतानि ह्रस्वदीर्घकुटानि च स्थितिस्थानेष्वशेषानि श्रुति अनुदात्ते मृदु ज्ञेया गन्धर्वा श्रुतिसम्पदे उदात्तश्चानुदात्तश्च स्वजितप्रचिते तथा निखातश्चेदि विज्ञेयस्वरभेदश्च पञ्चथा अदऊर्ध्वं प्रवक्ष्यामि आचि कस्य स्वरत्रयम् उदात्तश्चानुदात्तश्च तृतीयस्वरितस्वरः य एवोदात्त इत्युक्तः स एवस्वरितात्परः प्रचय प्रोच्यते तत् ज्ञैर्न चात्राण्यस्वरान्तरं वर्णस्वरोतीतस्वरस्वरितो द्विविधस्मृदः मातृको वर्ण एवं तु दीर्घस्थूञ्चजितादनु स तु सप्तविधो ज्ञेयस्वरप्रत्ययदर्शनाद पदे सविज्ञेयो भवेद्यो यत्र यादृशः सप्तस्वरान् प्रयुञ्जीदक्षिणं श्रवणं प्रदीप् आचार्यैर्विहितं शास्त्रं पुत्र पुत्रशिष्यहृदैषिभिः उच्चादुञ्चतरं नास्ति नीचा नीचतरं तथा वैश्वर्यस्वारसंज्ञायां किं स्थानस्वार उच्यते उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः तं स्वारं स्वारसंज्ञायां प्रतिजानन्ति शैक्षिकाः उदात्ते निषादगान्धारावनुदात्ते वृषभदैवतो स्वरिदप्रभवाह्यदे षड्जमध्यमपञ्चमाः यत्र कखपरव उष्मा जिह्वामूलप्रयोजनाः तानप्याज्ञापयन्मात्रा प्रकृत्यैव तुसा सा कला जात्यः क्षैप्रोऽभिनिहितस्तैरव्यञ्जन एव तिरोविरामः प्रसृष्टो पादवृत्तश्च सप्तमः स्वराणामहमेदेषां पृथघ्वक्ष्यामिलक्षणम् उद्दिष्टानां तथा न्यायमुदाहरणमेव सपकारं सबं वाभिह्यक्षरं स्वरिदं भवेद। न चोदात्तम्पुरो यस्य ुवर्णो यदो दाता वा अनुदात्तं प्रत्ययेदु विद्या क्षैप्रस्य लक्षणं ये ओ आभ्यामुदात्ताभ्यामकरो निहितश्चयः अकारो यत्र लुम्पन्ति तमभिनिहितं विदुः उदात्तपूर्वे यत्किञ्चिच्छन्दस्विस्वहिदं भवेद् येष सर्वबहुस्वारस्थैरव्यञ्चन उच्यते अवग्रहात् परं यत्र स्वरिदं स्यादनन्तरं तिरोविरामं तं विद्यादुदात्तो यद्यवग्रह इकारं यत्र पश्येयुरिकारेणैव संयुतम् उदात्तमनुदात्तेन प्रश्लिष्टं तं विचारय स्वरे चेत्स्वरिदं यत्र विवृता यत्र संहिता यदत्पादान्तवृत्तस्य लक्षणं शास्त्रनोदिदं जात्येन श्रु त्यग्रे क्षैप्र उच्यते ते मन्वदाभिनीतस्तैरव्यञ्जन उदये तिरोविरामो विष्कषिदे प्रसिष्ठो हि ई गोवर्णः पादवृत्तकं तविदे स्वरः सप्तैवमादयः उञ्जादेकाक्षरात्पूर्वात् स्वरं यद्यदिहाक्षरं स्वराणां जात्यवर्जानामेषा प्रकृतिरुच्यते चत्वारस्त्वादितस्वारात् कं षं पुं स्फुदि शास्त्रतः उदात्ते चैकनीचेवा जुह्वोऽग्निस् तन्निदर्शनं इकारान्धे पदे पूर्व उकारे परतस्तिते ह्रस्वं कम्पं विजानीयान्मेधावीनात्र संशयः इकारान्धे पदे चैवोकारद्वयं परे पदे दीर्घं कम्पं विजानीया शाग्धुष्वदिनिदर्शनं त्रयो दीर्घास्तु विज्ञेया येज जध्यक्षरेषु वै मन्यायधान इन्द्राभ्यां शेषा ह्रस्वाः प्रकीर्तिताः अनेकानामुदात्तानामनुदात्त प्रत्ययो यदि शिवकम्पं प्रत्ययो यदि यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु नीचं वोञ्चं च परतस्तत्रोदात्तं विदुर्बुधाः नरेफेवा रेफे वा द्विर्भावो जायते क्वचिद न च वर्गद्वितीयेषु न चतुर्थे कदाचन चतुर्थं तु तृतीयेन द्वितीयः प्रथमेन तु आद्यमन्दं च मध्यं च स्वाराक्षरेण पीडयेद् अनन्त्यश्च भवेत्पूर्वो ह्यं तश्च परतो यगी तत्र मध्ये यमतिष्ठे स्ववर्णपूर्ववर्णयोः वर्गान्त्यान् शशसै सार्धं मन्धस्थैर्वापि संयुतान् दृष्ट्वा यमा निवर्तन्ते अदेशिकमिवाध्वगाः तृतीयश्च चतुर्धश्च चतुर्थाधिपरं पदम् द्वौ तृतीयौ हकारश्च हकारादिपरं पदम् अनुस्वारोपधमूला तान् क्वचित् क्रमदः परम् रः पूर्वसंयुते चाप्युत्तरं क्रमते क्षरम् संयोगो यत्र दृश्येदव्यञ्चनं विरदेपदे पदे पूर्वाङ्गमादिधकृत्वा पराङ्गादौ निवेशयेत् संयोगे स्वरितं यत्र उद्वादप्रतनं तथा पूर्वाङ्गं तद्विजानीयाध्येनारम्भः परं हि तद् संयुक्तस्य दुवर्णस्य तत्परं पूर्वमक्षरम् अनुस्वारः पदां तश्चक्रमजं प्रत्ययेत्स्वके स्वरभक्ति तधारेः पूर्वपूर्वाङ्गमुच्यते पादादौ चापादादौ संयोगावग्रहेषु च यः शब्दयुधि विज्ञेयो योऽन्यसय इति स्मृतः पादावाप्यविच्छेदे संयोगान्ते च तिष्ठताम् वर्जयित्वा रकपाणामुपादेशप्रदृश्यते स्वसंयुक्तो गुरुज्ञेयः सानुस्वाराग्रिमस्फुटः अणुशेषो हृगोवापि युगलादिरविस्फुटः यदुदात्तमुदात्तं तद्यत्स्वरितं तत्पदे भवति यन्नीचं नीचमेव तद्यत् प्रचयस्तं तदपि नीचम् अग्निः मित्रमिदं तथा वयमया वहा प्रियं दूदं कृतं चित्तमधिशब्दस्तु नीचतः अक्वेष्वेव सुतेष्वेव यज्ञेषु कलशेषु च शतेषु सपवित्रेषु नीचादुञ्च यदे श्रुतिः हारिवरुणवरेण्येषु धारापुरुषेषु स्वरधिरेफः विश्वनरोनकारश्च शास्तु स्फुरिता नराः द्वौ वरुणौ वस्वरद उदुत्तमन्द्वं वरुणधार चौरुधारामुरुधारेष्वदोहते मातृकं वा द्विमात्रं वाद्विमात्रं स्वरते यदिहाक्षरं तस्यादिदोर्धमात्रं वैशेष्यं तु परदो भवेद् अदीर्घं दीर्घवत्कुर्याद्विस्वरं यत्प्रयुज्यते कम्बोस्वरिताभिगीतं ह्रस्वकर्षणमेव च निमेषकालो चापरे ऋक्स्वरातुल्ययोगा वा समास्येव ग्रहं कुर्यात्पदं चात्रानुसंहितं ये दीक्षराधिकरणं पदान्तस्येदितं विदुः सर्वत्र मित्रपुत्रसखिशब्दा अहिषधोरवग्राह्याः आदित्यविप्रजादवेदाश्च सत्पथी गोपदिवृत्रः समुद्राश्च स्वरयुपुवो देवयवश्चरिदं देवतातपे चिकितिश्च तचैव नावगृह्णन्ति पण्डिताः विवृतयश्च दस्रो वै विज्ञेया इति मे मदम् अक्षराणां नियोगेन तासां नामानि मे शृणु ह्रस्वादिवत्सानुसृत वत्सानुसारिणी चाग्रे पागवत्युभयोर्ह्रस्वदीर्घा वृद्धा पिपीलिकाः चदसृणां विवृतीनामन्तरं मातृकं भवेद् अर्ध मातृकमन्येषामन्येषामणुमातृकम् आपद्यते मकारो रेफोष्म सुप्रत्ययेप्यनुस्वारं पवेषु परः सवर्णं स्पर्शेषु चोत्तमापतिं नकारान्ते पदा पूर्वे स्वरे च परतस्थिते अकारं रक्तमित्याहुस्तकारेण तु रज्यते नकारान्ते पदे पूर्वे व्यञ्जनैश्च यवो हि षु अर्धमात्रादुपूर्वस्य रज्यते त्वणुमात्रया नकारस्वरसंयुक्तश्च दुर्युक्तो विधीयते रेफो रङ्कश्च लोपश्च सानुस्वरोऽपि वाक्वजिदहृदयादुत्तिष्ठते रङ्ककांस्य नदु समन्विदः मृदुश्चैव द्विमात्रश्च दधन्वामिति निदर्शनं यथा सौराष्ट्रिका नारी अराम् इत्यभिभाषते येवं रङ्गप्रयोक्तव्यो नारतैतन्मदं मम स्वरागढदभाश्चैव गणनामा सहोष्मभिः चतुर्नां पदजातीनां पदां तादशकीर्तिताः स्वर उच्चस्वरो नीचस्वरः स्वरित एव च व्यञ्जनानदु वरुदन्दे यत्र तिष्ठति सस्वरः स्वरप्रधानं त्रैश्वर्यमाचार्याप्रतिजानदे मणिवव्यञ्जनं विद्यासूत्रवचस्वरं विदुः दुर्बलस्य यथा राष्ट्रं हरदे बलवान् नृपक दुर्बलं व्यजनं धरेद बलवान् स्वरः पुभावश्च विवृत्तिश्च शशसारेफ एव च जिह्वामूलमुभत्मा च स्वरप्रत्यया विवृद्धिस्संहिता तु या भवेद् विसर्गस्तत्र मन्दव्यरतालव्यश्चात्र जायते सन्ध्याक्षरे परे सन्धौ प्राप्तसुक्तौ यवौ यदि व्यञ्जनाख्या विवृत्तिस्तु स्वराख्याप्रतिसंहिता ऊष्मान्तं विरदे यत्र सम्भवो भवति क्वचिद् विवृत्तिर्या भवेत्तत्र स्वराख्यान्तां विनिर्दिश्येत् यद्यो भावः प्रसन्धानमृकारादिपरं पदं स्वरान्तं तादृशं विद्याद्यदन्यवक्र्यमूष्मणः प्रथमा उत्तमाश्चैव पदान्तेषु यदि स्थिताः द्वितीयं स्थानमापन्ना शशसप्त्यया यदि प्रथमानूष्मसंयुक्तान् द्वितीयानिव दर्शयेद् न चैदान् प्रतिजानीयाद्यथा मस्यः छन्दोमानं च वृत्तं च पादस्थानं त्रिकारणं ऋ च स्वच्छन्दवृत्तास्तु पादास्त्वक्षरमानदः ऋग्वर्यान्स्वरभक्तिं च छन्दोमानेन निर्दिशेद प्रत्ययेद स हारेफमिदेस्वरभक्या ह्रुवर्णेदु पृथग्रेफ प्रत्ययस्तु वृद्धा भवेद विद्यालुमृकारं तु यदि तूष्माणसंयुतः ऊष्मणैव हि संयुक्त ऋकारो यत्र पीड्यते गुरुवर्णस्सविज्ञेयस्तृचं चात्र निदर्शनम् वृषभं च गृहीतं च बृहस्पतिं पृथिव्यां च निरृदि पञ्चमाह्यत्र ऋकारानात्र संशयः रादौ रेव परभक्तिर्जायदे द्विपदसन्धौ इ उ वर्णाभ्यां हीना क्वजिदेक पदाक्रमवियुक्ता स्वरभक्तिर्द्विधा प्रोक्ता ऋकारिरेफ एव च स्वरोदा व्यञ्जनोदा च विहिताक्षरचिन्तकैः शशशेषुस्वरोदया अकारे व्यञ्जनोदया शशसेषु विभृतां दुःहकारे संवृतां विदुः स्वरभक्तिं प्रयुञ्जानश्रीन्दोषान् परिवर्जयेद इकारं चाप्युकारं ग्रस्तदोषं तथैव च संयोगपरं च विसर्जनीयं द्विमात्रकं चैव अधशान्तिकजनङ्म सानुस्वारं कुटतं च यस्याः पादप्रथमो द्वादशमात्रस्तथा तृतीयोऽपि अष्टादशोऽद्वितीयसमापन्नः पञ्च दशमात्रतः यस्यालक्षणमुक्तं या त्वन्या सा विपुला अक्षराणां लघुह्रस्वमसंयोगपरं यदि तत्संयोगोत्तरं विद्याद्गुरुदार्काक्षराणि तु विवृत्तिर्यत्र दृश्यते स्वारस्यैवाग्रतस्थितः गुरुस्वारसविज्ञेयैः क्षैप्रस्तत्र न अष्टप्रकारं विज्ञेयं प्रपदानां स्वरलक्षणम् अन्धोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितं मध्योदात्तं स्वरितं द्विरुत्त द्विरुदात्तमित्येदा अष्टौ पदसंज्ञाः अग्निसोमः प्रवो वीर्यं हविषास्वनस्पतिः अन्धर्मध्यमयोत्ताम्युदमनुनिपात्य आद्यास्वरितमुपसर्गे द्विर्णीचमाख्यात इति स्वरितात्पराणि यानि स्युर्धारापक्षराणि सर्वाणि प्रजयस्तान्युबोधात्तम् निहन्यते प्रचयो यत्र दृश्येद तत्र हन्यात्स्वरम्बुधः स्वजिधकेवलो यत्र मृदुस्तत्र निपादयेत् पञ्चविधमाचार्यकं नाम सुखं न्यासकरणं प्रदिज्ञोच्चारणा अत्रोच्यते श्रेयःखलु वैश्याप्रतिज्ञातोणा यस्य कस्यचिद्वर्णस्य करणं नोपदभ्यदे प्रतिज्ञा तत्र वोढव्याकरणं हि तदात्मकम् तुम्बुरुभवद्विशिष्टविश्वावस्वादयश्च गन्धर्वाः साम सुनिभृदं करणं स्वर सौक्ष्म्यान्नैव जानीयुः कक्षेयाग्निं सदा रक्षेदश्री वा दर्शनं हेतुं जीर्णोकारप्रबुद्धकलुषस्विन् ब्रह्म चिन्दयेत। शरद्विषु वदो दुःशस्युद्धनमिष्यते यावद्वाः सन्ति कित्रिर्मध्यमापर्युपस्थिता आम्रपालाश बिल्वानामपामार्गशिरीषयोः वाग्यदप्रादरुद्धाय भक्षयेद्वदधावनम् श्च कदम्बश्च करवीरकरञ्जयोः सर्वे कण्टकिनपुण्याः क्षीरिणश्च यशस्विनः तेनास्य करणे सौक्ष्म्यं माधुर्यं चोपजायते वर्णांश्च कुरुदे सम्यक् प्राचीनौ दवतिर्यथात् त्रिफलाख्य भक्ष शिष्यक सदा अग्निमेधाजन्य शरवर्णकी तथा कृवा चावश्यन्धर्मां जाढरम जा। पीत्वा मधुं मधुम घृत शुचिर्भू तदो वदेद् मन्त्रेणोपक्रमेत्पूर्वं सर्वशाखास्वयं विधिः सप्तमन्त्रानतिक्रम्य यथेष्टां वाजमुत्सृजेद् न तां समीरयेद्वाजं न प्राणमुपरोधयेद् प्राणानामुपरोधेण चोप वैश्वल्यं चोपजायते स्वरव्यण्डजमाधुर्यं लुप्यते नात्र संशयः कुतीर्थादागदं दग्धमपवर्णैश्च भक्षितं न परिमोक्षोस्ति पापाखे पापाखेरिव किल्बिषाद सुदीर्थादाकतं जग्धुं स्वाम्नादं सुप्रतिष्ठितं सुस्वरेण स्ववक्रेण प्रयुक्तं ब्रह्मराजति न त कालो न लम्बोष्ठो न च सर्वानुनासिकः गद्गदो बद्धजिह्वश्च प्रयोगान्वक्तुमर्हति येकचित्तो निरुद्धान्तस्नादो गानविवर्जितः स दु वर्णान्प्रयुञ्जीदोष्ठं यस्य शोभनं पञ्चविद्यां न गृह्णन्ति चण्डास्तब्धाश्च ये नराः अलसाश्च सरोगाश्च येषां च विसृतं मनः शनैर्विद्यां शनैरार्थानारोहेत्पर्वतं शनैः शनैरध्वसुवरुतेद योजनान्न परं व्रजेद योजनानां सहस्रं तु शनैर्यादिपिपीलिका सन्वैनदे योऽपि पदमेकं न गच्छति न हि पापहदा वाणी प्रयोगान्वक्तुमर्हति बधिरस्यैव जल्पस्य विदग्धा वामलोचना उपांशुचरितं चैव योधि देवित्रसन्निव अभिरूपसहस्रेषु सन्धेहेष्वेव वर्तते पुस्तकप्रत्ययाधीतं नाधीदं गुरुसन्निधौ राच तेन सभामध्ये जाजगर्भेव कामिनी अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य दुःसञ्चयम् अवन्ध्यं दिवसं कुर्यात् दानाध्ययनकर्मसु यत्कीठैः पांशुभिश्लक्ष्णैर्वल्मीकक्रियदे महान्न तत्र बलसामर्थ्यमुद्योगस्कत्र कारणं सहस्रगुनिदा विद्या शतशः परिकीर्तिता आगमिष्यति जिह्वाग्रे स्थलानिम्न निबोदकम् हयनामिव जात्यानामर्धरात्रार्धशायिनां न हि वाद्यार्थिनां निद्राचिरं नेत्रेषु तिष्ठति न भोजनविलम्बि स्यान् न ना च नारी समुद्रमपि विद्यार्कीव्रजेद्गरुडहंसवद अहिरिव गणाद्भेदसाहित्यान्नरकादिव राक्षसीभ्य इवसृभ्य स विद्यामधिगच्छति न षड्ढा प्रान् पुवन्त्यर्थान्नक्लीबानच मानिनः न च लोकरवादिना न च स्वस्वप्रतीक्षता यथा खननन् खनित्रेण भूपलं वारिविन्दति एवं गुरुगदां विद्यां शुश्रूषुरधिगच्छति गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा अथवा विद्यया विद्या ह्यन्यथा नोपपद्यते शुश्रूषारखिता विद्या, विद्या यद्यपि मेधागुणैः समुपयाभि व्येव यौवनवदी न तस्य साफल्यवधि भवति इति दिङ्मात्रमुद्दिष्टं शिक्षा ग्रन्थं मयातव। ज्ञात्वा वेदाङ्गमाद्यं तु ब्रह्म भूयाय कल्पते इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चाशत्तमोऽध्यायः ओम्